मुद्गलपुराणं खण्डं 3 महोदरचरितम् अध्यायम् 24 मुचुकुन्तचरितम् मुचुकुन्तचरितं श्रीगणेशाय नमः नरनारायणावोचदुः पुरुकुत्सस्य दायादावभूतां तु महाबलौ अम्बरीषो महाभागो मुचुकुन्तस्तथापरः अम्बरीषस्वराज्यं वैकृत्वा कृत्वा गणपतिं ययौ तपस्तप्त्वा सुविपुलं पुत्रे राज्यं निधायच च सकारमुचुकुन्दः स राजर्षिराज्यमुत्तमं धर्मयुक्तो महातेजा शक्रतुल्यपराक्रमः कदाचिद्देवदैत्यानां युद्धं जातं महाद्भुतम् तत्र देवा जिदा सर्वे दैत्यै परमदारुणैः मुचुकुन्दं तदो देवा शरणं जग्मुरादराद तदस्तेन महादैत्या हदा शस्त्रबलेन वै तत्र युद्धप्रसङ्गेन कालो विप्रगतो बहुः युगादिक्रमणं तेन न प्राप्तं तस्य महात्मनः युगभेदं निरीक्ष्यासौ देवान् सर्वानुवाचः ज्ञानं दादव्यमाद्यम्मे भवद्भिरधुना परं तदस्ते दैवता सर्वे जगुः परमभाविताः अधुना पर्वतद्रोण्यां निद्रा युक्तो भव यो नरस्तत्र कस्चि स एव मरणं सद्य प्राप्नोदुत्वत्समीपगः तत्र देववासुदेवस्य दर्शनं प्रभविष्यति स ज्ञान सन्ता महायोगी नृपोत्तमा यया उवाचैव वनं तान् महाबलः स गन्धमादनद्रोण्यां सुष्वाप च नृपोत्तमः तदो बहुगदे काले वसुदेवसुदो भवद विष्णुः साक्षान्महायोगी तपःसाराधितो मुने कंसं महावीरं मधुरायां स्थितो कंसस्य श्वशुरोऽत्यन्तं क्रोधयुक्तो कंसं हत्वा महावीरं मधुरायां राजभिः शाल्वपाद्यैश्च संवृदो वीरसतमैः त्रयोविंशतिरेदस्याक्षौहिण्यश्च बलम् बभौ तन्ममर्दमहातेजा कृष्णः सङ्घर्षणान्विदः पलायत ततो राजा गतस्थानम् पुनर्ययौ तावत्सन्न्यायिन संयुक्तो देवं पराजितः एव महाबलः सप्तदशवारम् समागतः जरासन्तस्ततो राजान यशः प्रापदुःखितः तदा केनापि विप्रेन्द्रयवनाधिपधिफलः सहायार्थं दृद्धपक्षे पक्षे स कालयवनाभिधः स वै यवनराजश्च यादवानां विनाशकृद गर्गशापः समुद्भूद आययौ मधुरां मुने तमागतं परिज्ञाय मायया निर्ममे स्वयं द्वारकां जलद्धौ कृष्णस्तत्र चिक्षेप यादवान् ततो यवनराजस्य समीपे समागदः समागतः दर्शयित्वा तथात्मानम् वासुदेवः पलायत नारदेन च कृष्णस्य कथितानि वै यवनेन्द्राय थै कृष्णम् ज्ञात्वा सन्धाविदोऽभवद अभत्स यन्महात्मानं कृष्णकालसमस्वयं यवनः किं यदुर्वंशे लाञ्छनप्रदग्धावसि तद कृष्णो गतस्तत्र यत्र सुष्वापवैनृपः मुचुकुन्तः सतं त्यक्त्वा गुहान्तरगतो भवत यवनेन्द्रेण सुप्तोसौ दृष्टस्तं स्वपदाहनद किं सुप्तोऽसि निर्लज्ज कुरु मया सह बोधितो यवनेनैवं मुचुकुन्दः तस्य नेत्रोद्भवो वाग्निर्यवनं स ददाह च एवं तं कालयवनं हतं दृष्ट्वा जनार्दनः आययौ नृपनाथं तं हर्षनिर्भरमानसः तमागतं समादृष्ट्वा मुचुकुन्दो ननाम उवाच भक्तिसंयुक्तकृष्णं योगीश्वरं मुने मुचुकुन्द उवाच देवै सङ्कथितं कृष्ण ममै तदभवत्प्रभो अधुना ज्ञानमार्गं वै कथय स्वकृपानिधे मुचुकुन्दस्य वाक्यं सश्रुत्वा हर्षसमन्विधः जगादत्तं महाभागं कृष्णपरमयोगविद श्रीकृष्ण उवाच अहं गणेश्वरपूर्णो न भिन्नश्च महामदे ये तदेव ज्ञानं सं ज्ञातव्यं त्वया नृप त्यक्त्वा पञ्चविधं चित्तं तदैश्वर्यं च मोहदं योगे ब्रह्मणि प्रोक्तं गणेशस्त्वं भविष्यसि चित्तरूपा महाबुद्धिर्मोहरूपा च भूमिप सिद्धिर्गणपदेर्माये तत्र बिम्बं स्थितं च यत् तदेव गणनाथोऽयं पश्यतं योगसेवया चित्ते चिन्तामणिं भूप बिम्बभवं भ्रमं गकारात्मकरूपां वैसिद्धिं जानीहि मानद नकाररूपिकाम्बुद्धिं तयोः स्वामी गणेश्वरः तं भजस्व महाभागतेन शान्तिमवाप्स्यसि न्या ज्ञानं गुह्यतमं प्रोक्तम् मया ते नृपसत्तम एवमुक्त्वा महायोगी कृष्णस्तेन प्रपूजितः आगत्य मधुरायां स जखानयवनान् प्रभुः जरासन्धं समागत्य धाविदो रामसंयुधः मुचुकुन्दश्च राजशिः साधयामास यत्नदः कृष्णेन कथितम् योगम् तेन शान्तिम् जगामः ततो भ्रमन् स राजेन्द्रः पृथिव्यां यत्र तत्र च महायशाः मुचुकुन्दस्य यो मर्त्यश्चरिदम् शृणुयात्परं प्रदध्याद्गणपः प्रभुः ॐ तत्सदिः श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मुचुकुन्तचरितं नाम चतुर्विंशतितमोऽध्यायः ओम्